अथ एकाशीतितमोऽध्यायः वैशम्पायन उवाच अथ दीर्घस्य कालस्य देवयानीन्द्रपोत्तम वनं तदेव निर्यात क्रीडार्थं वरवर्णिनी तेन दासी सार्धं शर्मिष्ठया तदा तमेव देशं सम्प्राप्ता यथा कामं च चारसा ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशं क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं खादन्त्यो विविधान् भक्ष्यान् च पुनश्च नाहुशो तमेव देशं सम्प्राप्ता तिमां तासां स्त्रीणां मध्ये वराङ्गनां शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ययातिवाच द्वाभ्या कन्या सहस्राभ्याम सहस्राभ्या गोत्रे च नाम चवय पृछाम्य हम शुभे देवया नुवाच आख्यास्याम्यहमादत्स्व वचनं मे न राधिपा शुक्रो नामासुरगुरुः सुतां जानीहि माम् इयं च मे दासी यत्राहं तत्र गामिनि दुहिता दानवेन्द्रस्य शर्मिष्ठावृषपर्वणः ययातिरुवाचा कथं तु ते सखी दासी कन्येयं असुरेन्द्रसुता सुभ्रूः परं कौतूहलं